तथा श्रीमहाभारते आदिपर्वणि सम्भवपर्वणि चतुर्विंशत्यधिकशततमोऽध्यायः वैशम्पायन उवाच दर्शनीयां स्त पुत्रान् पाण्डुपञ्चमहावने तान् पश्यन् पर्वते रम्ये स्वबाहुबलमाश्रितः पूर्णे चतुर्दशे वर्षे फाल्गुणस्य च धीमतः तदा उत्तरफल्गुण्यां प्रवृत्ते स्वस्तिवाचने रक्षणे विस्मृता कुन्ती पुरोहितेन सहिता ब्राह्मणान् पर्यवेशयत् तस्मिन् समाहूया माद्रीं सुपुष्पितवने काले कदाचित् धुमाधवे भूतसम्मोहने राजा सभाक्योऽव्यचरध्वनं पलाशैःस्तिलकैश्चूतैश्चम्पकैः पारिभद्रकैः अन्यैश्च बहुभिर्वृक्षैः फलपुष्पसमृद्धिभिः जलस्थानैश्च विविधैः पद्मिनीभिश्च शोभितं पाण्डोर्वनं तत्सम्प्रेक्ष्य प्रजज्ञैः हृदि प्रहृष्टमनसं तत्रा विचरन्तं यथामरं तं वसनं विभ्रती शुभं समीक्षमाणस्य तुतां वयस्थां तनुवाससं तस्य कामप्रववृधे गहनेग्निरिवोद्गतः रहस्येकां तुतां दृष्ट्वा राजा राजीवलोचनां न तं कामं कामवशीकृतः तत एनां बलाद्राजा निजग्राहरहोगतां वार्यमाणस्तया देव्या विस्फुरन्त्या यथा बलं स तु कामपरीतात्मा तं शापं नान्वबुध्यता माद्रीमैुनधर्मेण सोऽन्वगच्छद्बलादिव रव्या मन्मथस्यवशङ्गतः शापजं भयमुत्सृज्य विधिनः सम्प्रचोदितः तस्य कामात्मनो बुद्धिः साक्षात्कालेन मोहिता सम्प्रमत्येन्द्रियग्रामं प्रणष्टा चेतसा सतया सह सङ्गम्या भार्यया कुरुनन्दनः पाण्डुपरमधर्मात्मा युयुचे ततो माद्रीसमालिङ्ग्या राजानं गतचेतसं शब्दं पुनः सः पुत्रैस्ततः कुन्ती माद्रीपुत्रौ च पाण्डवौ आजग्मुस्सहितास्तत्र यत्र राजा तथागतः ततो माद्र्यब्रवीत् राजान्नार्ता कुन्तीमिदं वचः एकैव त्वमिहा गच्छा तिष्ठन्त्वत्रैव तारकाः तच्छ्रुत्वा ता वचनं तस्यास्तत्रैवाधाय दारकान् हताहमिति विकृष्य सहसैवा जगामसा दृष्ट्वा पाण्डुं च माद्री च धरणीतले कुन्ती शोकपरीताङ्गी विललापसुदुःखिता रक्ष्यमाणो मया नित्यम् वीरस्य सततमात्मवान् कथं त्वामत्यतिक्रान्तः शापं जानन्वनौकसः ननु नाम माद्री रक्षितव्यो न राधिपः सा कथं लोभितवती विजने त्वं न कथं दीनस्य सततं त्वामासाद्यरहोगतां तं विचिन्तयतः शापं प्रहर्षः समजायता धन्या त्वमसि वाक्लीकि मत्तो भाग्यतरा तता दृष्टवत्यसि यद्वक्त्रं प्रसृष्टस्य महीपतेः मादृवाच विलपन्त्या मया देवि वार्यमाणेन चासकृत आत्मानवारितो नेना सत्यं दिष्टं चिकीर्षुणा वैशम्पायनौ उवाच तेन तु वक्त्रेण गदन्तमिव भारता परिरभ्यतद्धा मोहाद् विललापाकुलेन्द्रिया माद्री चापि समालिङ्घ्य राजानं विललापसा तं तथाधिगतं पाण्डुम् ऋषयस्सह चारणैः अभ्येत्यसहितास्सर्वे शोकाद्दशून्यवर्तयन् अस्तम् गतमिवादित्यं सुशुष्कमिव सागरं दृष्ट्वा पाण्डुं नरव्याघ्रम् शोचन्ति स्म महर्षयः समानशोका पाण्डवाश्च बभूविरे ते समाश्वासिते विप्रैः विलेपदुरनिन्दिते कुन्त्युवाच हा राजन् कस्य नौ हित्वा गच्छसि त्रिदशालयं हा राजन् मम मन्दाय कथं माद्रीसमेत्यवै निधनं प्राप्तवान् राजन् मद्भाग्यपरिसंश्रयात् युधिष्ठिरं भीमसेनमर्जुनं चयमावुभौ कस्य हित्वा पुत्रान् प्रयातोऽसि विशाम्पते नूनं त्वां त्रिदशा देव प्रतिनन्दन्ति भारता यथा हि तप उग्रं ते चरितं विप्रसंसदि आवाभ्यां सहितो राजन् गमिष्यसि दिवं शुभम् आजमीडाजमीडानां कर्मणा चरितां गतिम् वैशम्पायनौ वाच विलपित्वा भृशं त्वेवं निःसञ्ज्ञे पतिते भुवि युधिष्ठिरमुखाः सर्वे पाण्डवावेदपारगाः तेऽप्यागत्य पितुर्मूले निस्सञ्ज्ञापतिता भुवि पाण्डवपादौ परिष्वज्य विलपन्ति स्म पाण्डवाः कुन्त्युवाच अहं ज्येष्ठा ज्येष्ठं धर्मफलं ममा अवश्यं भाविनो भावान् मां मादृणि वर्तय अन्विष्यामीह भर्तारमहं प्रेतवशङ्गतम् उत्तिष्ठत्वं विसृज्यैनमिमान् पालयधारकान् अवाप्य पुत्रां लब्धात्मा वीरपत्नीत्वमर्थये मादृवाच अहमेवानुयास्यामि भर्तारमपलाहिनं न हि तृप्तास्मि कामानां ज्येष्ठा मामनुमन्यतां मां चाभिगम्यक्षीणोऽयं कामाद्भरत सत्तमः तमुच्छिन्त्यामस्य कामं कथं नु यमसाधने न वर्तयन्ति निर्विशेषं सुतेषु ते वृत्तिमार्गे चरिष्यामि सुषेदेनस्तथा च मां वर्तितव्यं स्वपुत्रयत् मां राजा प्रेतवशङ्गतः वैशम्पायनौ उवाच ऋषयांस्तान् समाश्वास्य पाण्डवान् सत्यविक्रमान् ऊचुक् कुन्ती च माद्री च समाश्वास्य तपस्विनः सुभगे बालपुत्रे तु नमर्तव्यं कथञ्चन पाण्डवांश्चाभिनेष्यामः कुरुराष्ट्रं परं तपान् अधर्मेष्वर्थजातेषु धृतराष्ट्रश्च लोभवान् स कदाचिन्नवर्तेत पाण्डवेषु यथाविधि कुन्त्याश्च विष्णयो नाथः कुन्तिभोजस्तथैव च माद्याश्च बलिनां श्रेष्ठः शल्यो भ्राता महारथः भर्ता तु सार्धे फलवान्नत्र संशयः युवाभ्यां दुष्करं चैदद्वदन्ति द्विच पुङ्गवाः मृते भर्तर्या साध्वी ब्रह्मचर्यव्रते स्थिता यमैश्च नियमै ज्ञान्ता मनोवाक्कायजैशुभैः व्रतोपवासनियमैः चैकभोजनं येन विधिना देहशोषणतत्परा देह शोषणसंयुक्ता विषयैषृतचेतना देहव्ययेन नरकं महदाप्नोत्यसंशयः तस्मात् संशोषयेद्देहं विषयानाशमाप्नुयुः भर्तारं चिन्तयन्ती स भर्तारं निस्तरेच्छु वा तारितश्चापि भर्ता स्याद् आत्मा पुत्रस्तथैव च तस्माज्जीवितं मे वैतद् युवाह्योर्फत्ति शोभनं कुन्त्युवा आजा शिशि निक्षिप्ता क्या चाथा यता हुर्भगवि तमन शोभनम परम भर्तु मम पुराम मम च संशय मिवाच कर्थपुत्रण योगक्षेम से धारणे अन सामुद्धिया यद्य सूंधती कुयाच वृष्ण्योथ कुभोचस्त च ना हम वुत्राण समर्थधारणे तथा साहम भर्तान्वेश अतृप्ता नन्वहम तथा भर्तृलोक जेष्ठा देवीमा मर्मजस्त सत्यधर्म से धीमता पादौ परिचरिष्यामि तदार्थे ह्यनुमन्यतां वैशंपायन उवाच एव मुक्त्वा महाराजा मद्रराचसुताशुभ ददौ कुन्त्यैयमौ माद्री शिरसाभिप्रणम्यच अभिवाद्य ऋषीन् सर्वान् परिष्वज्य च पाण्डवान् मूर्त्युपाघ्राय बहुशः प्रार्थनात्मसुतौ तथा हस्ते युधिष्ठिरं गृह्या माद्रीवाक्यमभाषतम् माद्रिवाच कुन्तीमाता माता अहं धात्री युष्माकं तु पितामृतः युधिष्ठिरपिता ज्येष्ठश्चतुर्नो धर्मतः वृद्धानुशासने सक्ता सत्यधर्मपरायणाः तादृशा न विनश्यन्ति नैव पराभवं तस्मात् सर्वे कुरुध्वं वै गुरुवृत्तिर्मतन्त्रिताः वैशम्पायन ऋषीणां च पृथायाश्च नमस्कृत्य पुनः पुनः आयासकृपणामाद्रीप्रत्युवाच पृथाङ् तथा धन्या त्वमसि वा स्नेहि नास्ति स्त्रीसदृशी त्वया वीर्ये तेजश्च योगं च माहात्म्यञ्च यशस्विनां कुन्तीद्रक्ष्यसि पुत्राणां पञ्चानाममितौ च सां ऋषीणां सन्निधावेषां मयावागभ्युदीरितां स्वर्गे दिदृक्षमाणाया ममैषा न वृथा भवेत् आर्याचाभ्यविवाद्या च मम पूज्या च सर्वतः ज्येष्ठावरिष्ठा त्वं देवी भूषिता स्वगुणैश्वुभैः अभ्यनुज्ञातुमिच्छामि त्वया यादवनन्दिनि धर्मे स्वर्गे च कीर्ते च त्वत्कृतेऽहमवाप्नुयां यथा तथा विदत् स्वेह माचकार्षीर्विचारणां भाष्पसन्दिग्धया वाचा कुन्त्युवाच यशस्विनी अनुज्ञातासि कल्याणि प्रितिवे सङ्गमोऽस्तु ते भर्ता सह विशालाक्षी क्षिप्रमद्यैव भामिनि सङ्गता स्वर्गलोके समाः राज्ञः शरीरेण सह ममापीदं कलेभरं दग्धव्यं सुप्रतिच्छन्नमेतदार्क्ये प्रियं कुरु दारकेष्वप्रमत्ता च भवेथा हिता ममा अतोऽन्यन्नन्न प्रपश्यामि हि किञ्चन वैशंपायन उवाच इत्युक्त्वा तं चिताग्निस्थं धर्मपत्नी नर्षभं मद्रराजसुता तूर्णमन्वरोहद्यशस्विनी ततः प्रेतकर्मणि पारगः हिरण्यशकलान्याज्यं तिलान्ददि च उदकुम्भं सपरशुं समानीयतपस्विभिः अश्वमेधाग्निमाकृत्य यथा न्यायं समन्ततः काशपक्कारयामासा पाण्डो प्रेतस्य तां अहताम्बरसं वीतो भ्रातृभिस्सहितोऽनगः उदकं कृतवांस्तत्र पुरोहितमते स्थितः अर्हतस्तस्य कृत्यानि शतशृङ्गनिवासिना तापसा विधिवश्चक्रश्चाह्णा ऋषिभिस्सह इति श्रीमहाभारते आदिपर्वणि संभवपर्वणि पाण्डूपरमे चतुर्विंशत्यधिकशततमोऽध्यायः